थ चतुः पञ्चाशः सर्गः कामधेनुम् वसिष्ठोऽपि यदा न त्यजते मुनिः तदास्य शबलाम् राम विश्वामित्रोऽन्वकर्षत नीयमाना तु शबला रामराज्ञा महात्मना दुःखिता चिन्तयामास रुदन्ती शोककर्षिता परित्यक्ता वसिष्ठेन किमहम् सुमहात्मना याहम् राजभृतैर्दीना ह्रियेयभृशदुःखिता या किम् मयापकृतम् तस्य महर्षेर्भावितात्मनः यन्मामनागसम् दृष्ट्वा भक्ताम् त्यजतिधार्मिकः इति सञ्चिन्तयित्वा तु निःश्वस्य च पुनः पुनः जगामवेगेन तदा वसिष्ठम् परमौजसम् निर्धूयतांस्तदा भृत्याच्छतशः जगामानिलवेगेन पादमूलं महात्मनः शबलासा रुदन्ती च क्रोशन्ती चेदमब्रवीत् वसिष्ठस्याग्रतस्थित्वा रुदन्ती मेघनिस्वना भगवन् किम् परित्यक्ता त्वयाहम् ब्रह्मणः सुता यस्माद्राजभटा माम् हिनयन्ते त्वत्सकाशतः एवमुक्तस्तु शोकसन्तप्तहृदयाम् स्वसारमिव दुःखिताम् न त्वाम् त्यजामि शबले नापि त्वया एष नयते राजा बलान् मत्तो महाबलः महितुल्यम् बलम् मह्यम् राजा त्वद्यविशेषतः बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च हस्तेध्वजसमाकीर्णा तेनासौ बलवत्तरः एवमुक्तावसिष्ठेन प्रत्युवाच विनीतवत् वचनम् वचनज्ञासा ब्रह्मर्षिमतुलप्रभम् न बलम् क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः ब्रह्मन् ब्रह्म बलम् दिव्यम् क्षात्राच्च बलवत्तरम् अप्रमेयम् बलम् तुभ्यम् बलवत्तरः विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् नियङ्क्ष्व माम् महातेजस्तम् ब्रह्म बलसम्भृता तस्य दर्पम् बलम् यत्नम् नाशयामि दुरात्मनः इत्युक्तस्तु तया रामवसिष्ठस्तु महायशाः तदोवाच बलम् परबलार्दनम् कस्य तद्वचनम् श्रुत्वा सुरभिः सा तस्याहुम्भारवोत्सृष्टाः पल्लवाः शतशो नृप नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः स राजा परमक्रुद्धक्रोधविस्फारिते क्षणः पल्लवान्नाशयामास शस्त्रैरुच्चावचैरपि विश्वामित्रार्दितान् दृष्ट्वा पल्लवाञ्छतशस्तदा भूय एवासृजद्घोराञ्छकान्यवनमिश्रितान् तैरासी संवृता भूमिशकन मिश्रित प्रभाव्भिर्मीम किंजल्कसन्नीभ तीक्षा पट्टिशधर हेम वर्णंबरावृत निर्दग्धम तदल्व प्रदीप्तरव पावक तथस्त्रणि महातेज विश्वाम इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुः पञ्चाशत् सर्गः